सूर्यस्पर्धि किरीटमूर्ध्वतिलक प्रोद्भासि फालान्तरम् कारुण्याकुलनेत्रमार्द्रहसितोल्लासम् सुनासापुटम् गण्डोऽद्यन्मकराभकुण्डलयुगम् कण्ठोज्ज्वलत् वनमाल्यहारपटल श्रीवत्सदि केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयङ्कितश्रीमद्बाहु चतुष्कसङ्गतगदा शङ्कारिपङ्खेरुहाम् काञ्चित् काञ्चन काञ्चिलाञ्चितलसत्पीताम्बरालम्बिनीमालम्बे विमलाम्बुज द्युतिपदाम् मूर्तिम् तवार्तिच्छिदम् यत्रैलोक्यमहीयसोऽपि महितम् सम्मोहनम् मोहनात् कान्तम् कान्ति निधानतोऽपि मधुरम् माधुर्यधुर्यादपि सौन्दर्योत्तरतोऽपि सुन्दरतरम् त्वद्रूपमाश्चर्यतोऽप्याश्चर्यम् भुवनेन कस्य कुतुकम् पुष्णाति विष्णो विभो तत्ता धृङ् मधुरात्मकम् तव वपुः सम्प्राप्य सम्पन्मयी सा देवी परमोत्सुकाचिरतरम् नास्ते स्वभक्तिष्वपि तेनास्याबत कष्टमच्युत विभो त्वद्रूपमानोऽज्ञक प्रेमस्थैर्यमयाद चापल बलात् लक्ष्मीस्तावक रामणीयकहृदैवेयम् परेष्व स्थिरेत्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ये तद्वानगुणानुकीर्तनरसासक्ता हि भक्ता जनास्तेष्वेता वसति स्थिरैव दयित प्रस्तावदत्तादरा एवम्भूतमनुज्ञता न वसुदा निष्यन्द सन्दोहनम् त्वद्रूपम् परछिद्रसायनमयम् चेतो हरम् शृण्वताम् सद्यः प्रेरयते मतिम् मदयते रोमाञ्चयत्यङ्गकम् व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्द एवम्भूततया हि भक्त्यभिहितो योगः स योग द्वयात् कर्म ज्ञानमयाद् दृशोत्तमतरो योगीश्वरैर्गीयते सौन्दर्यैकरसात्मके त्वयि खलु प्रेम प्रकर्षात्मिका भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभा निष्कामम् नियतः स्वधर्मचरणम् यत् कर्म योगाभिदम् तद्दूरेत्यफलम् यदौपनिषदज्ञानोपलभ्यम् पुनः तत्त्वव्यक्ततया सुदुर्गमतरम् चित्तस्य तस्माद् विभो श्रेयसी अत्यायासकराणि कर्म पटलान्याचर्य निर्यन्मला बोधे भक्तिपथे तवाप्युचितता मायान्ति किम् तावता क्लिष्ट्वा तर्कपथे परम् तव वपुः ब्रह्माख्यमन्ये पुनश्चित्तार्द्रत्वमृते विचिन्त्य बहुबे सिद्ध्यन्ति त्वद्भक्तिस्तु कतारसामृतझरी निर्मज्जनेन स्वयम् सिद्ध्यन्ति विमल प्रबोध पदवीमक्लेशतस्तन्वती सद्यः सिद्धिकरी च